श्रीहरये नमः अथ नवमोऽध्यायः श्रीशुक उवाच अथ कस्यचिद्विजवरस्य अङ्गिरप्रवरस्य समधमत्तपस्वाध्याय द्ययनत्यागसन्तोषदितीक्षा प्रश्रयविद्यानसूय आत्मज्ञानानन्दयुक् तस्य आत्मसदृश्य श्रुतशीलाचारूप औतार्यगुणानवसो ध्या अङ्गजा बभूवुर्मिथुनं वार्यायां यस्तु तत्र पुमांस्तं परमभागवतं राजर्षिप्रवरं भरतम् उत्सृष्टमृगशरीरं चरमशरीरेण विप्रत्वं गतमाहुः तत्राभि स्वजनसङ्घाच्च भृशम् उद्विजम नो भगवतः कर्मभन्त विध्वंसनश्रवणस्मरणगुणविवरण चरणारविन्दयुगलं मनसा विधधत्तात्मन प्रतिघातम् आशङ्कमानो भगवदनुग्रहणेनान् अनुस्मृतस्वपूर्वजन्मावलिरात्मानम् उत्मत्तजडान्तपधिरस्वरूपेण धर्शयामास लोकस्य तस्याविह वा आत्मजस्य विप्रपुत्रस्नेहानुबद्धमनाः सामावर्धनात्संस्कारान् यतो भदेशं विदधान उ उप उपनीतस्य च पुनः शौचाचमानादीन् कर्म नियमान् अनभिप्रेतानपि समशि यक्षत् अनुशिष्टेन हि भव्यम् पितुपुत्रेणेते स चा विधतुः पितृ सन्निधावेवासद्रीचीनमिव स्म करोति चन्दां स्यपयिष्यन् सख व्याहृतिभिः सप् प्रणव शिरसत्रिपदीं सावित्रीं घ्रैष्म वासन्ति कान्मा सा नदीयानम् अप्यसमवेतरूपं ग्राहयामास एवं स्वतनुज आत्मनि अनुरागावेसितचित्तशौचाध्ययन व्रतनियमगुर्वनलशुश्रूषणाद्यौपकुर्वाणकर्माणि अनभे युक्तान्यपि समशिष्टेन भाव्यमिति असदाग्रहः पुत्रम् अनुसाश्च स्वयं धावत् अनधिगतमनोरथः कालेन अप्रमत्तेन स्वयं गृग एव प्रमत्त उपसंहृतः अथ य वीयसि द्विजसति स्वगर्भजातं मिथुनं सपत्न्या उपन्यस्य स्वयं मनुसंस्थया पतिलोकमघाध पितर्युपरते भ्रातरयेनम् अथत् प्रभाव विद्वितस्त्रय्यां विद्यायामेव परियवसितमतयोन न परविद्यायां झटमतिरिति भ्रातुरनुशासननिर्भन्तान्यवृत्सन्त स च प्राकृतैर्द्विपदः पशुपीवुन्मत् झडभतिरेत्यभिभाष्यमाणो यथा तदनुरूपाणि प्रभाषते कर्माणि च स कार्यमाणः करोति विष्टितो वेतनतो वा याच्ञया यदृश्चया वा उपसाधितम् अल्पम् बहुं सृष्टं गतन्दं वा वप्यवहरति परं नेन्द्रियप्रीतिनिमित्तं नित्यं निवृत्तनिमित्तस्वसिद्धविशुद्धानुभवानन्तः स्वमात्मलाभाधिगमः सुखदुःखयोर्ध्वन्द्वनिमित्तयो असम्भावितदेहाभिमानः शीतोष्णवात वर्षेषु वृषयिव अनावृताङ्गः पीन संहननाङ्गस्तण्डिलसंवेसनानुन्मर्दनामज्जनरजसा महामणिरिव अनभिव्यक्त प्र ब्रह्मवर्क्षस कुपटाभ्रत कटिरुपवीते नोरुमर्षिणा द्विजातिरिति ब्रह्मभन्तुरिते संज्ञया तज्ञजनावमतो विविचार यथा तु परत आहारं कर्म वेतनत ईहमान स्वभृतातृभिरभिके धार कर्मणि निरूपितस्तदभिकरोति किन्तु न सम विषमन्यूनम् अधिकमिति वेदकणपिण्ड्याकपलीकरणकुल्माशस्थालिपुरीषाधीन्यपि अमृतवत् अभ्यवहरति अध कदाचित् कश्चित् वृषलभतेर्भद्रकाल्यै पुरुषपशुमालभत अपत्यकामः तस्य ह दैवमुक्तस्य पशोपथवीं तदनुचरपरिधावन्तो निशे निशीतसमये तमसावृतायाम् अनधिगतपसव आकस्मिकेन विधिना के धारान्वीरासनेन मृगवाराहादिभ्यः संरक्षमाणम् अङ्घिरः प्रवरसुतम् अपश्यन् अतत एनम् अनवद्यलक्षणम् भद्वा रसनया चण्डिकागृकमुपनिर्न्योर्मुधा विकसितवदनाः अथ पणयस्तं स्वविधिना अपि शिक्षा हते न वाससा आच्छाद्य पूषणाले बशक्तिलकाधिभिः उपस्कृतं भुक् वन्तं धूपदीपमाल्यलाजकिशलयाङ्कुरपलोपकारोपे तया वैस स संस्थयामकथा गीतस्तुतिमृदङ्गपणवघोषेण च पुरुषपशुं भद्रगाल्याः पुरत उपवेशयामासुहो अथ वृषलराजपणिः पुरुषपशो अश्रुगासवेन देवे भद्रकालीं यक्षमाणस्तदपि मन्त्रतमसिंहति कराल निसितम् वृषलानां रजस्तमः प्रीकृतीनां मनसां भगवत्कलावीरकुलं कदर्ती कृत्योत्पतेन स्वैरं विहरतां हिंसाविहाराण्णां कर्मातिदारुणं यत् ब्रह्मभूतस्य साक्षाद् ब्रह्मर्षिसु तस्य निर्वैरस्य सर्वभूतसुहृद सुनायामप्यननुमथम् आलम्बनं तधुपलभ्य ब्रह्म तेजसा अधिदुर्विषहेण दं वपुषा सहसोश्चाटवैस देवि भद्रकालीं भृशं ध्रोरुणे क्षणाटोप अतिभयानकवधनाकन्तुकामवेधं महाट्टहासम् अतिसम्भ्रम्भेण विमुञ्चन्ती तत उत्पत्यपापीयसा दुष्टानां तेनैव असिना विवृग्न शीर्ष्णां घलात् अश्रुगाशवमत्युष्णं सहगणेन निपीय अतिपानमध विह्वलावुच्चैस्तरां स्वभार्षतै सह जगो ननर्तश्च विजहार च आत्मने फलति न वा ये धत् विष्णुधत्तमघद्भुतं यत सर्वसत्त्वसुहृदात्मनां निर्भैराह्णां साक्षाद् भगवता निमिषारिवरायुधेन अप्रमत्तेन तैस्तैर्भाभैः परिरक्षमाणानां तत्पादमूलम् अकुतश्चिद्भयमुपसृतानां भागवत परमहंसानाम् श्रीमद महापुराणे पंचमस्कते झट भरतचरित नवम सर्व गोपी का जीवन स्मरण गोविंद गोविंद सद्गुमाराज की जय